श्रीमद्भागवत् महापुराणं नवं स्कन्धोऽध्यायः रेतोधा पुत्रो नयति नरदेवयमक्षयान् त्वं चासि धाता गर्भस्य सत्यमाः शकुन्तलां पितर्योपरिते सोऽपि चक्रवर्ती महायशाः महिमागीयते तस्य चक्रं दक्षिणहस्तेऽ पद्मकोशोशपादयोः ईजे महाभिषेकेन शोभिषिक्तोरान् विभो पञ्चपश्चा पञ्चपञ्चाशता मयेऽध्यैर्गङ्गायां मनुवाजिभिः नाम नामतेयं पुरोधाय यमुनायामनुं प्रभु अष्टसप्तमेध्या स्वाण्डुबन्ध प्रदद्वसु भरुतस्य हि दोष्यन्ते अग्निसाची गुणोचितः सहस्रं बद्धसो यस्मिन् ब्राह्मणा गाभिजिरे त्रेऽस्ति सञ्चतं ह्यस्मान् बद्ध्वा विस्मापयन् नृपान् दोष्यन्ती रत्यगान्मायां देवानां गुरुमाययो मृगाचुक्लदृतकृष्णान् हिरण्येन परिवृतान् अ अदात्कर्मणि मश्नारे न्यूतानि चतुर्दश भरतस्य महत्कर्म न पूर्वेणा परे नृपाः नैवापूर्णैव प्राप्स्यन्ते बाहुभ्यां ते दिवं यथा किरात हूडान् यौनानन्ध्रान् कङ्कान् खसाछकान् अब्रह्मण्यान्त्यपुं नृपाश्चाहं प्रेच्छां जित्वा पुरा सुरा देवाञ्जीरसौकांसि भेजिरे देवस्त्रियोरसां नीता प्राणिभिः पुनराहरत् सर्वकामान् ऋतुहतु प्रजानां तस्य रोदसी समास्त्रीणवसाहस्री दिक्षु चक्रमवर्तयत् त सम्राड्लोकपालाख्यम् ऐश्वर्यम् अधीराश्रियम् चक्रं च स्खलितं प्राणान् विषेत्युपरिरामः तस्यासन्नृपवैदर्भ्यपत्न्यस्त्रीस्रसम्मताः जग्स्यागभयत्पुत्रान्नानुरूपा इति रिते तस्यैवं व्यतथे वंशे तदर्थं यजत सुतं मरुस्तोमेन मरुतो भरद्वाजमुपादतुः अन्तर्वन्यां भ्रातिपत्न्यां मेचनाय बृहस्पतिः त्रितो वारितो गर्भं सप्तावर्यम् अवां सृजन् तं त्यक्तुकामां ममतां भ्रातृत्यागविशङ्किताम् नाम निर्वचनं तस्य श्लोकमेनं सुराजगुः मूढे भरद्वाजमिमं भरद्वाजं बृहस्पते जातौ यदुक्त्वा पितरौ भरद्वाय ततद्वयं चोद्यमानासुरैरेवं मत्वा पिथतमात्मजं व्यसिजन्मरुतो विभ्रं दत्तोऽयं वितथेऽन्वये इति मद्भागुते महापुराणे पारंसां चैतायां नौ विस्कन्दे विंशोऽध्याय